चकारचण्डताण्डवं तनोतर चाकटाः सम्भ्रमप्रमन्दिम्प्रदर्जरी विरोलवीचिवल्लरी विराजमानमूर्धरज्ज्वलल्ललाटभट्टभा किशोरचन्द्रशेखरे रतिप्रदर्श Shivam bajam yah sada shivam bajam yah Om namah Shivaya Om namah Shivaya Sahasra jana pravitya shesha lekh shikara rasula dolhi dorani vidosarangritam राजमालया निबद्धाटूटक श्रियै चिराय जायतां चघोरबन्धुशेखर ज्वलन्तरञ्जय स्फुलिङ्गावि गीत पञ्चसायकं नमन् निलिम्बनायकम् सुधामयूखलेखया विराजमानशेखरम् महागपालि सम्भदे शिरोचटालास्तु कालभालभट्टिका दगद्दगद् धज्वलन्तरञ्जयाहुलीकृत प्रचण्ड पञ्चसायके धराधरेन्द्र नन्दिनी कुचाग्रचित्रपत्रकार कल्पनैकशिल्पिनी त्रिलोचने रजिर्ममावीनमेघमण्डली निरुद्ध दुर्धनस्पुर भूभूनिशीतिनि धम प्रबन्ध बन्धकन्दर निलिम्ब निर्झरे धरस्तनो दु कृति सिन्धुर धरा निधानबन्धुर श्रियं जगन्तु पंचिम प्रभा बलंबिंटकंदली ऋचि प्रबद्धक स्मरचिदिदिदचिद गजचिदगचिदच्चिद भज अखर्व कलागद सप्रभागमाधुरि विजृम्भणा मधुव्रतं स्मरान्तकम् भुजङ्गमश्मीर्गमत्रा स्फुरत्करालभागुङ्गमङ्गल परिक्रम प्रवर्तितप्रचण्डताण्डशी त्रिशति चक्रकल्पयोर्भुजङ्गमौक्तिकसजो हरिष्ठरत्नलोष्टयो सुहृत्ति पक्षपक्षयो धरणारविन्द चक्षुषो प्रजाम हिमगेन्द्रयो समप्रवृत्तिभक्कदा सदाशिवं व्रजाम्या शिवेति मन्त्रमुच्चरन्त्यमेव मुक्तम्